दशाधिकशतमोऽध्यायः वैशम्पायनोवाच शूरो नाम यदुश्रेष्ठो वसुदेव पिता भवत् तस्य कन्यापृथा नाम रूपेणाप्रतिमा ना भुवि पितृष्वस्त्रीयाय अनपत्याय भारत अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यम् सत्यवा अग्रजामथताम् कन्याम् शूरोऽनुग्रहकाङ्क्षिणे प्रददौ कुन्तिभोजाय सखासख्ये सा नियुक्तापि दुर्गेः देवतातिथिपूजने उग्रम् पर्यचरत्तत्र ब्राह्मणम् संशितव्रतम् निगूढनिश्चयम् धर्मे यम् तम् दुर्वाससंविदुः तमुग्रम् संशितात्मानम् सर्वयत्न्यैरतोषयत् तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया अभिचाराभिसंयुक्तमब्रवीच्चैव मुनिः यम् त्वमेतेन मन्त्रेणावाहयिष्यसि तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति तथोक्ता सा विप्रेणा विप्रेण कुन्ती कौतूहलान्विता कन्या सती देवमर्कमाजुभावयशस्विनी साददर्शतमायान्तम् भास्करम् लोकभावनम् विस्मिता चानवद्याङ्गि दृष्ट्वा तन्महदद्भुतम् ताम् समासाद्य देवस्तु विवस्वानिदमब्रवीत् अयमस्म्यसितापाङ्गि ब्रूहि किम् करवाणि ते आहूतोपस्थितम् ऋषिमन्त्रेण चोदितम् विद्धि पुत्रलाभाय देवमर्कम् शुचिस्मिते कुत्युवाच कश्चिन्मे ब्राह्मणः प्रादाद् वरम् विद्याम् च शत्रुहन् तद्विजिज्ञासयाह्वानम् कृतवत्यस्मिते विभो एतस्मिन्नपराधे त्वाम् शिरसाहम् प्रसादये योषितो हि सदा रक्ष्या स्वापराधापि नित्यशः सूर्यौ वा सर्वमेवैतद् यद्दुर्वासा वरम् ददौ त्यच्च भयमे वेह क्रियताम् सङ्गमो मम अमोघम् दर्शनम् मह्यमाहूतश्चास्मिते शुभे वृथाह्वानेऽपिधे भीरुदोषस्यान्नात्र संशयः मुक्ता बहु विधम सापूं विवस्वता साह कन्याह मिति भारत बंधुपक्ष भयादीता लज्जया च यशस्वनीमर्क पुनरे द्रवीद भरतर्षभ पुत्रस्ते निर्मता सुभ्र श्रृणु आदित्ये कुण्डले विभृत्कवचम् चैव मामकम् हस्त्रास्त्राणमभेद्यम् च भविष्यति शुचिस्मिते न किञ्चन देयम् तु ब्राह्मणेभ्यो भविष्यति चोद्यमानो मया चापि नाक्षमम् चिन्तयिष्यति दास्यत्येव विप्रेभ्यो मानी चैव भविष्यति मत्प्रसादान्न ते राज्ञे भविता दोष इत्युत भगवान् कुन्तिरा तदा प्रकाशकर्ता तपनः तत्र वीरः समभवत् वरः आमुक्त कवचः श्रीमान् देवगर्भश्रियान्वितः सहजं कवचम् बिभ्रत् कुण्डलो द्योतिताननः अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः प्रादाच्च तस्यैकन्यात्वम् पुनः स परमद्युतिः दत्त्वा च तपताम् श्रेष्ठो दिवमाचक्रमे ततः दृष्ट्वा कुमारम् जातम् सा वाष्णेयी दीनमानसा एकाग्रम् चिन्तयामास किम् कृत्वा सुकृतम् भवेत् गूहमानापचारम् सा बन्धुपक्षभयात्तदा उत्ससज कुमारन्तम् जले कुन्ती महाबलम् तमुत्सृष्टम् जले गर्भम् राधा भर्ता महायशाः पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः तस्य बालस्य तावुभौ वसुषेणो भवत्विति स बलवान् सर्वास्त्रेषूद्यतो भवत् आपृष्ठतापादादित्यम् उपातिष्ठत वीर्यवान् तस्मिन् वीरस्य धीमतः नादेयम् ब्राह्मणे श्वासीत् किञ्चिद्वसुमहीतले ततः काले तु कस्मिंश्चित् स्वप्नान्ते कर्णमब्रवीत् आदित्यो ब्राह्मणो भूत्वा शृणुवीरवचो मम प्रभातायाम रजन्याम् त्वमागमिष्यति वासवः न तस्य भिक्षा विप्ररूपी भविष्यति निश्चयोऽस्यापहर्तुम् कवचम् कुण्डले तथा अतस्त्वाम् बोधयाम्येष स्मर्तासि वचनम् मम कर्णोवाच शक्रो माम् यदि वै याचते द्विज कथञ्चास्मै न दास्यामि यथा चास्म्यवबोधितः विप्राः पूज्यास्तु देवानाम् सततम् प्रियमिच्छताम् तम् देवदेवम् जानन् न शक्नोम्यवमन्त्रणे सूर्यौ वाच यद्येवम् शृणु मे वीर वरन्ते सोऽपि दास्यति शक्तिम् त्वमपि याचेथाः एवमुक्त्वा द्विजस्वप्ने तत्रैवान्तरधीयत कर्णः प्रबुद्धस्तम् स्वप्नम् चिन्तया नो तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थी समुपागमत् कुण्डले प्रार्थयामास कवचम् च महाद्युतिः स्वशरीरात् समुत्कृत्य कवचम् स्वम् निसर्गजम् कण्णस्तु कुण्डले छित्त्वा प्रायच्छत्सकृताञ्जलिः प्रतिगृह्यतु देवेशस्तुष्टस्ते नास्य अहो सा मनसा वासवो हसन् देवदानवयक्षाणाम् गन्धर्वो रगरक्षसाम् न पश्यामि को ह्येतत् कर्मकर्ता भविष्यति प्रीतोस्मि कर्मणा तेन परम् वृणुयमिच्छसि इच्छामि भगवद्दत्ताम् शक्तिम् शत्रुनिबर्हणीम् वैशम्पायनो वाच ददौ शक्तिम् सुरपतिर्वाक्यं चेदमुवाच देवासुरमनुष्याणाम् गन्धर्वोरगरक्षसाम् यमेकम् जेतुमिच्छेथास्सो नया न भविष्यति प्राङ्नाम तस्य वसुषेण इति कर्णो वै कर्तनश्चैव कर्मणा इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि कर्णसम्भवे दशाधिकशत तमोऽध्यायः